त्रयस्त्रिंशच्च वै देवास्तथा वैमानिकागणाः सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः उपयान्त्यर्चयित्वा तु त्वाम् वै प्राप्तमनोरथाः गुह्याः पितृगणाः सप्त ये च मानुषाः ते पूजयित्वा त्वामेव गच्छन्त्याशु वसवो मरुतो रुद्राये च साध्यामरीचिपाः वालखिल्यादयः सिद्धाः श्रेष्ठत्वम् प्राणिनाङ्गताः सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च न तद्भूतमहम् मन्ये यतर्कादतिरिच्यते सन्ति चान्यानि तत्त्वानि वीर्यवन्ति महान्ति च न तथा दीप्तिः प्रभावो वा यथा ज्योतीर्षि त्वयि सर्वाणि त्वम् सर्व ज्योतिषाम् पतिः त्वयिम् सत्यम् च सत्त्वम् च सर्वे भावाश्च सात्विकाः त्वत्तेजसा कृतञ्चक्रम् सुनाभम् विश्वकर्मणा देवारीणाम् मदोयेन येन नाशितश्चार्गधन्वना त्वमादायाम् शुभिस्तेजो निदाघे सर्व सर्वौषधिरतानाञ्च पुनर्वर्षासु मुञ्चति तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये तथाघनाः विद्योतन्ते प्रवर्षन्ति तव प्रावृषिरश्मयः